अथ तृतीयोऽध्यायः सूत उवाच जगृहे पौरुषं रूपं भगवान् संभूतं शोट सकलं आधो लोकशुश्रुक्षया यस्यां बसी स यानस्य नाभिग्रहाम् भुजासीत् ब्रह्मा विश्वसृजां पतिः यस्यावयवसंस्थानैः कल्पितो लोकविस्तरः तद्वै भगवतो रूपं विशुद्धं सत्वमूर्जितं पश्यन्त्यधोरूपम् अधप्रचक्षुषा सहस्रपादोरुभुजाननाद्भुतं सहस्रमुद्धश्रवणाशिनाशिकं सहस्रमौल्यं भरकुण्टलोल्लसत् ये दत् नानावताराणां निधानं बीजमव्ययं यस्यां सांसेन सृज्यन्ते देवधैर्यज्ञराधयः स एव प्रथमं देवः कौमारं दर्गमास्तितः चचारदुश्चरं ब्रह्मा ब्रह्मचर्यम् अखण्डितं द्वितीयं तु भवायास्य रसादलगता महीम् उद्धरिष्यन्बुभाधत्त यज्ञेशक्सौकरं वपुः तृतीयं ऋषिसर्गं च देवर्षित्वमुपेत्य सहा तन्त्रं सात्वतम् आचष्ट नैष्कर्म्यं कर्मणां यतः तुर्ये धर्मकला नरनारायणा वृषे भूत्वात्मोपशमोपेधम् अगरो दुश्चरं तपः पञ्चमः कपिलो नाम सिद्धेशकालविप्लुतं प्रोवाचा सुरये साङ्ख्यं तद्वग्रामविनिर्णयं षष्टे अद्रे अभत्यत्वं वृतः प्राप्तो न प्रह्लादादिभ्यवूचिवान् ततः सप्तम आकूत्यां रुचेर्यज्ञोऽभ्यजायत स यामाद्यैः सुरगणैरभतायम्भुवान्तरम् अष्टमे मेरुदेव्यां तु नाभेर्जात उरुक्रमः दर्शयन् वर्त्मधीराणां सर्वाश्रम नमस्कृतम् ऋषिभिर्याचितो भेजे नवमं पार्थिवं वपुः दुग्धे मामोषदेर्भिप्रास्तेनायं सवसत्तमः रूपं स जगृहे मात्स्यं संप्लवे नाव्यारोप्य मही मय्याम् अपात्वैवस्वथं मनुं सुरासुराणाम्बुधतिं मत्नधां मन्दराचलं विभुः धान्वन्तरं द्वादशमं त्रयोदशमेव च अपाययत्सुरान्यान्मोहिन्यामोहयन् स्त्रियाम् चतुर्दशं नारसिंहं विप्र दैत्येन्द्रमूर्जितं दधारकर जयवक्षस्येरकां कडकृत्य पञ्चदशं वामनखं कृत्वा अगाध्वरं भलेह पधत्रयन् याचमानः प्रत्याधिस्त्रिविष्टपम् त्रिसप्त कृत्व कुपितो निक्षत्रामकरोन्महीं तदतप्तदसेजातसत्यव्यां पराशरात् चक्रे वेद दृष्ट्वा पुंसोऽल्पमेतसहां नरदेवत्वमापन्नः सुरकार्यचिकीर्षयां चक्रे वीर्याणि अतः एकोदविंशे विंशति मे वृष्णीश प्राप्य जन्मनि रामकृष्णाभितिभुवो भगवानहरत्परं तथः कौलसम्प्रवृत्ते सम्मोहाय सुरद्विषां बुद्धो नाम्ना अजनः सूतः कीकटेषु भविष्यति अतासौयुगसन्ध्यायां धस्यु प्रायेषु राजसु जनिता विष्णुयसससो नाम्ना कल्केर्जगत्पतिः अवधारह्यसङ्ख्येयां हरेस्तवनिधेद्विजाः यथा विताशिनः कुल्या सरसस्युसहस्रसहा ऋषयो मनवो देवामनुपुत्रमहौजसहा कलाः सर्वे हरेरेव सप्रजापतयस्तथा एतेषां स कला पुंस कृष्णस्थो इन्द्रारिव्याकुलं लोकं मृडयन्ति युगे युगे जन्मगुह्यं गुह्यं एतत् प्रयतो नरः सायं प्रातर्गृणन् भक्त्या दुःखः ग्रामात् विमुच्यते एतद्रूपं भगवतो ह्यरूपस्य चिदात्मनः मायागुणैर्विरचितं महाधादिभिः आत्मनि यथा नवसि मे घौघोरेणुर्वा पार्थिवो निले एवं द्रष्टरिदृश्यत्वम् आरोपितं बुद्धिभिः अतः परं यध व्यक्तं अव्यूढगुणव्यूहितम् अदृष्टाश्रुतवस्तुस्त्वात् सजीवो जीवो यत्रमे सदसत्रूपे प्रतिषिधे स्वसंविताम् अविद्यया आत्मनि कृते इति तद्ब्रह्मदर्शनं यद्येषो परता देवी माया वैशारधीमतिः सम्पन्नये वेति निः स्वे महीयते एवं जन्मानि कर्माणि ह्यकर्तुरजनस्य च वर्णयन्ति स्म कवयो वेदगुह्यानि हृत्पदेः सवायितं विश्वम् ममो गलील सृजत्य वत्यनः सज्जतेऽस्मिन् भूतेषु शान्तर्हित आत्मतन्त्र जिक्रति षड् न चास्य कश्चिन्निपुणेन धातु अवैती जन्तु कुमनीषभूतीहे नामानि रूपाणि मनोवचोऽपि सन्तन्वतो नटशर्यामि वाज्ञहा सवेतधातु पदवीं परस्य दुरन्तवीर्यस्य रथाङ्कपाणेः यो मायया सन्ततया अनुवृत्या भजेत तत् पादसरोजगन्तम् अदेकधन्या भगवन्त इत्थं यत्त्वा सुदेवे किल लोकनाथे कुर्वन्ति सर्वात्मकमात्मभावं नयत्र भूय परिवर्त उग्रहः इतं भागवतं नाम उत्तमश्लोकचरितं शकार भगवान् ऋषिः निःश्रेयसाय लोकस्य न्यं स्वस्त्ययनं महत् तदिदं ग्राहयामास सूतं आत्मवतां वरम् सर्वभेदेतिहासानां सारं सारं समुद्धृतम् सतुसं तु संस्रावयामास महाराजं परीक्षितम् प्रायोपविष्टं गङ्गायां परितं परमर्षिभिः कृष्णे स्वधामो भगते धर्मज्ञानादिभिः सगा कलौ नष्टृशामेष पुराणार्घो तु नोदितः तत्र कीर्तयतो विभ्रान् विभ्रर्षेर्भूरितेजसः अहं साध्यगमं तत्र निविष्टस्तदनुग्रहाद् सोऽहं वस्रावयिष्यामि यथा दीतं यथामती इति श्रीमद्भागवते महापुराणे प्रथमस्कन्ते नैवेशीयो भाग्याने तृतीयोऽध्यायः सर्वत्र गोपिका जीवनस्मरणं गोविन्द गोविन्द सद्गुरुमहराजिकी जय